नृशं संकर्मसुमहत् सर्वलोकविगर्हितम् अस्वर्ग्यमयशस्यं चाप्यधर्मिष्ठं च भारत त्रिभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशं त्वया सकर्तारः स कर्तारः पापाचाराश्च मानवाः निग्राह्याः पार्थिव श्रेष्ठ त्रिवर्गपरिवर्जिताः किं ते नरश्रेष्ठ मामिहानागसंघ्नता मुनिं मूलफलाहारं मृगवेषधरं नृप वसमानमरण्येषु नित्यं शमपरायणं त्वयाहं हिंसितो यस्मात् तस्मात् शपे शते सकर्तारं सकर्तारम् अवशं काममोहितं जीवितान्तकरो एवमेवागमिष्यति अहं हि किन्दमो नाम तपसा मुनिः व्यपत्रपन्मनुष्याणाम् मृग्याम् मैथुनमाचरम् मृगो भूत्वा मृगैः सार्धम् वने न तु ते ब्रह्म हत्येयम् भविष्यत्यविजानतः मृगरूपधरम् हत्वा मामेवम् काममोहितं। अस्य तु त्वम् फलम् प्रियया सह संवासं प्राप्य कामविमोहितः त्वमप्यस्यामवस्थायाम् प्रेतलोकम् गमिष्यसि अन्तकाले हि संवासं यया गन्तासि कान्तया प्रेतराजपुरम् प्राप्तम् सर्वभूतदुरत्ययम् भक्त्या मतिमताम् श्रेष्ठ सैव त्वानुगमिष्यति वर्तमानः सुखे दुःखम् यथाहं प्रापितस्त्वया तथा त्वां च सुखं प्राप्तम् दुःखमभ्यागमिष्यति वैशम्पायन उवाच एवमुक्त्वा सुदुःखार्तो जीवितात्सव्यमुच्यत मृगः पाण्डुश्च दुःखार्तः क्षणेन समपद्यत इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि पांडुमगे सप्तशाधिकम्याय